प्रजापति ष्टादशभिप्रायुङ्कोद तमाप्त्वाष्टादशभिरमारुन्ध विदष्टादशिनः लभ्यन्ते यज्ञमेव ते आप्त्वा विरमानोपरुन्धे संवत्सरस्रमा एषा प्रतिमा विदष्टादशिनः द्वादशमादाः पञ्चत्तमः संवत्सराष्टादशः विदष्टादशिनः लभ्यन्ते संवत्सरमेव ते आजमानावम्भेष्ठेऽन्याम् प्रसोदपाकरोति इदरेष्टादशिनोजामित्वाय नव नवालभ्यन्ते नवे यत्वा च विदारण्ये सङ्गस्थापयेसेनाम् पिता पुत्रौ व्यद्धानक्रामे सज्ञस्थापयेत् क्षुत्रे यजमानमरण्यम् मृदगंहरेयः अरण्यायजमानित्यारण्यापशयदे यत्पशोन्नालभेद अनवरुद्धास्य वशवस्य कृतानुज्ञास्य वशवा भवन्ते अयज्ञवेषसम्भवते महिलमानवरण्यम् मृतकम् हरन्ते राम्यैः सग्रष्टामयते एतेवैकमहक्षयमो नाम संविधापस्करः समध्वानक्रामन्ते स्वमन्दिकम् ग्रामयो ग्रामान्तो भवनः व्याध्यामोचन व्याधिने्ये श्वारायन्ते प्रजापतिरकामे लोकावङ्घेयेन स एतानभयान् पशू न पश्यन् ग्राम्यादिष्टारण्यादिष्टा तानानुभद तैरवेदभो लोकावन्ध ग्राम्यैरेव पशुभिमम् लोकमवारन्ध आरण्येरमम् यद्ग्राम्यान् पशो नानुभद इममेव तैर् लोकमवरुन्ध यदारण्यान् अमन्तये अनवरुद्धो एतस्य संवत्सरेत्याह यैतैतश्चादम् वात्स्यादिवत्सरम् प्रयुङ्क्त एता वा न वै संवत्सरः यच्चादुर्मास्यानि यदे प्रसवः लभ्यन्ते प्रत्यक्षमेव देशंवत्सरै प्रजयापुपरि लभ्यते यः संवत्सरम् प्रयुङ्क्ते संवत्सरः स्ववर्गो लोकः स्ववर्गम् तु लोकन्नापराध्वानि प्रजा वै प्रशव एकादशिनि ैकादशिना लभ्यन्ते साक्षादेव प्रजाम् पशोनेजमानावन्धे प्रजापदम् विराजपसजना सा दाश्वमेधम् प्राविशदशप्रायुन्द रामात्मोद कामा त्वादशभिरमानुदा यद्दशिनः लभ्यन्ते विराजमेपदैरावरुन्ध <imit> एकादशदशतः लभ्यन्ते एकादशाक्षराष्णपेष्टः पशवः पशोमेव वन्धे पैश्वरेव वा अश्वः नानादेवत्याः पशव भवन्ति अश्वस्य सर्वत्वाय नानालोपा तस्मान नाना भवन्ति तस्मान्नालोपाः पशवः बहवोपा भवन्ति तस्मात् बहुलोपाः पशवस्य वृद्धे अस्मै मे लोकाय ग्राम्यान् प्रथमः लभ्यन्ते अमुष्माहारण्याः यद्ग्राम्यान्वसो नालभते इममे रदे लोकमवरुन्धे यदारण्यान् अवन्धेः उभयान् वशो नालभते ग्राम्यागश्चारण्यागश्च उभयान् लोकयानवरुध्ये उभयान् वसो नालभते राम्यायश्चारण्यायश्च उभयस्यान्ना यस्यावरुध्ये उभयान्वशो नारभते राम्यागश्चारण्यायश्च उभयेषाम् पशोनामवरुध्ये त्रयस्त्रयो भवन्ते त्रयजमे लोकाः वेषाम् लोकानामाप्तये ब्रह्मवादना वदन्ते तस्मात् सत्रात् अस्मिल्लोके बहवक्का बालिते अभ्यन्ते ेवभ्यन्ते अस्मिन् नैवके कामान् दशादे अस्मानस्मिन् लोके बहवः कामाः त्रयाणाम् त्रयानाम् सह भवान् भवते त्वया पदो मे देवाः त्वयावदोकाः एषाम् लोकानामाद्ये येषाम् लोकानाम् कृत्ये पर्यज्ञकृतानारण्यार्थं धायेभ्रथमित्याह असौ वा आदित्याभ्रथः आदित्यमेवास्मै निमक्ते अरुणमित्याह अज्ञणः अग्निमेवस्मै निमक्ते चरन्तमित्याह वायुर्वेदरन् वायमेवास्मै इमानेवास्मै रोजना रोचन्त्यै रोचनादिवेत्याह नक्षत्राणि वै रोचनादिवे नक्षत्राण्येवास्मै रोचयते कुञ्जन्तस्य काम्येत्याह कामानेवास्मै विलक्ते हरे विवक्षसेत्याह इमे हरे विवक्षसा इमेवास्मै विवक्ते त्रे वेदवाहसा होरात्रे एवास्मै जनक्ते एतादेवास्मै देवता लोकस्य केदवैरध्वजम् हृमुञ्चते यश देवेण गमयते देवोदस्यैवमित्याः यथा यदुरेवे एते मन्थानस्य विद्यते यस्य ज्ञायते एतज्ञस्तोतरेदयस्वभावप्रया स्तोताः वायुमैवास्य परस्तानादृहात्यावृत्ते तथा वेहविधागृहीतस्य स्कन्दने एवम् वा नश्वस्य स्कन्दरे यदस्योपागतस्य लोमा निषीयन्ते यद्वालेषु राजानाभयन्ते लोमा सरत्सम्भरन्ते भवद्भवस्तु वरिति प्राजावत्याभिलाभयन्ते प्राजावत्यो वा श्वः स्वदेवेन देवत च समर्थयन्ते भोजमेः भुव इति माबादा स्वरिति लोकानामभिजत्यै हिरण्ययाः राजा भवन्ति द्वौ दर्वे हिरण्यम् राष्ट्रवस्वमेधः द्वोदिष्टैवास्मै राष्ट्रम् च समेते दधाते सहस्रम् भवन्ति सहस्रम् विदस्वर्गो लोकः स्ववर्गस्य लोकस्याभिजत्यै अपवा वेदस्मात् वेद इन्द्रियम् पदमश्रे क्रामन्ते प्रसवस्त्वाञ्जन्तकायत्रेण छन्दते मयश्यभ्यभक्ते तेजो वा आज्यम् तेजोगायत्रे तेजदैवात्मै तेजोवरुन्ध रुग्धास्त्वाञ्जन्त तेजो वा आज्यम् इन्द्रियम् द्रष्टुप तेजदैवात्मा इन्द्रियमवरुन्ध आदित्यास्त्वान्यकतेन छन्दति परिवृत्ते ते दोराज्यम् पशवो जगते तेदैवास्मै पशोरवलुङ्घे पत्रयोभ्यञ्जन्ते श्रिया वा एतद्गोपनम् तत्पत्रयः श्रिरमेवास्मिन् तद्दशते नास्मात् चेद इन्द्रियम् नमस्वा योपाहरन्ति प्रजामेवान्नादे कुरुपदे एतद्देव अन्नवत्तैतदन्नमध्ये प्रजापदैदित्याह प्रजायामेवान्नाद्यौस्ते पृष्ठम् श्रवणमन्त्रगते लोकानामभिजित्य समिध्यो चेदामित्यश्व भवन्ति ततो भक्त्वाय एतदामारेण ब्रह्म वक्षेनतेन योताय ब्रह्माय ब्रह्माज्ञम् वदतः एकदा देवीनम् ब्रह्म वक्षलेन गतमध्येदः दक्षिणता ब्रह्मा भवते दक्षिणता यतलो ब्रह्मा ्रह्मा ब्रह्मवच्चदमेवा च दक्षिणतो दधाते तस्माद् दक्षिणोद्वाचिदः ते दोवाग्नेः ते जात्तरतो दधाते तस्मादुत्तरस्य यस्मितलः योगमभिनो वदनः ोपहन सहज ब्रह्म वर्चजाजेज कौर्ज दिवमे वृष्टमे बृहद्वज अवृंधे ये राधे पिछंगिर्ेरा रात्रिमेवावन्धे यज्ञस्मिलेत्याः शेर्वैमलिप्ला अन्नाद्यमेवावन्धे कस्मिकागेतरदेत्याः कागेतरदेशदेवावन्धे कवस्मिद्यायरेत्याह कन्दमावेला आयुरेव यज्ञस्य धिमस्य भयजमित्याह अज्ञलवै जिमस्वजम् ब्रह्मवर्चनमेवावृन्धे यज्ञस्य रापवनम् वहदित्याह अयम् वै लोकापवनम् वहद अस्मिन्नेव लोके प्रजगच्छदे वृक्षामित्त्वाह वेदर्वे भवन्तः पृथिव्याः वेदवेमावृन्धे वृक्षामित्त्वा पृच्छामि तृष्णवार्श्वस्वरेत्याह स्वमवै वृष्णवाश्वस्वरेण स्वमपीठमेवावृन्धे वृच्छामि वाजःपरमम् व्योमेत्याह ब्रह्मवैवाजःपरमम् व्योम ब्रह्मवचनमेवावृन्धे अपमानेतस्मात् प्राणाक्रामन्ते स्वमेधेन क्रामन्ते अवन्ते स्थावन्ते स्वावन्तोयन्ताः प्रियाणाम् अवष्ठान् अथो ध्वन्ते वैनम् अथोस्मैवते त्वयन्ते ते इमे लोकाः येभ्येवैनम् लोकेभ्यो धुवते ते पुनः पर्यन्ते षट्सम्पद्यन्ते षड्वाः ऋतुभ्ये वैदम् धुवते अपवादेक्रामन्ते यज्ञे ैना सुभगे वार्गे लोके सम्प्रोन् वा सामित्याह स्वर्गमेवैनाम् लोकम् गमयते ्वसमात्मवजानिगद्भमित्याह प्रजावेव प्रजावेव पशूनाग्न्धत्ते सुवर्गम् वागन्न प्राजानमस्वप्राजानारदिवथापयन्ते स्वर्गस्य रागस्य प्रज्ञाच्चे गायत्रे त्रयवेद तय्यः सोच्चो भवन्ति अयस्मय्यो रजताहरिण्यः अस्य वै लोकस्य रूपमयस्मय्यः अन्तरिक्षस्य रजताः दिवो हरिण्यः दिशो वा यस्मयः अवान्तरदिशारजताः हरिण्यः दिशदेवास्मे कल्पयते तस्माचत्राकम् जायते अपवादे तस्मात् आक्षम् स्वमेधेन यजते भोद्धे नामुच्छ्रयदादित्याः शेर्वै राष्ट्रमस्वमेधः शेर शिरमेवास्मै राष्ट्रमोऽध्वमुश्रयते रेण भारम् गिरा विवेयत्याः राष्ट्रम् वै भारः राष्ट्रमेवास्मे परियोहते अथास्यामध्यमे ददामित्याह दा शेर्वैराष्ट्रस्य मध्यम् शिरमेवारुन्धे शेर ैराष्ट्रस्यमत्येत्याः राष्ट्रैवैराष्ट्रम् च नट्टम् वशुपण्डिन इत्याह तस्मान् शोत्राय दर्यजाय धनाय तस्माः द्वेषे पुत्र ये यकाशकम् दिगेत्याः विद्वैषकम् दिगाः राष्ट्रवश्रमेधः राष्ट्रम् च समेत्य आहलमिषयत्याः तस्मादिधस्वर्पन्ते आहलम् गभे पदयत्याः विद्वैगभः राष्ट्रम्पदः राष्ट्रमे विश्राहन्ते तस्मादवम् माताजले पिताजलित्याह इयम् वै मातापदकम् धेरित्याह्वे गवः राष्ट्रम् मुष्टिः राष्ट्रमे विश्राहन्ते तस्माष्ट्रम् अपवादेभ्यः प्राणाक्रामन्ते ये यज्ञे भोगम् वदन्ति तथिक्राविण्णकाशमिति तदभिमकेन्द्रम् वदन्ति प्राणावैत प्राणानेवात्मन् दसतेवक्रामन्ते आभोगेष्ठापेत्येवताः देवतात्मानम् पावयन्ते प्रजापतिः प्रजा सृष्ट्वा प्रेणानुप्राविशते भ्यः पुनः सम्भवितुम् नाशक्नोत् सोऽभ्रवेत् यथमजित्सः यो मेतः पुनः सम्भरजिते अलम् देवाश्वमेधेनैवन् ततो वेदात्मन् यो अश्वमेधेन यजते प्रजापतिमे मथम् भरत्रनोति पुरुषमाणफले वैराजो मे विराजमेवालभदे अथो अन्नम् वै विराट अन्नमेवावरुन्धे अश्वमालभदे प्राजापत्यो वा अश्वः प्रजापतिमेवालभदे अथो श्रेर्वारे सफम् हिरमेवावरुन्धे ग्रामालभदे यज्ञो वै गौः यज्ञमेवालभदे अथो अन्नम् वै गौः अन्नमेवर अचारे आरभ से भूमे अथवा पुष्ट वैभ पुष्टिवरंधे पर्यगत पुरुषंसाई उभौ पशु आरभे यमो पे श्रोभ विज्ञे बढ़ाष्टा अभिजिताभिहुताः सवन्ति नैनन्धयो यज्ञे बद्धाः अभेष्टा अभिप्रेताः अभिजिता अभिभूता हिकंसन्ति यो स्वमेधेन विजिते तबुजैनमेवम् वेद प्रथमेन वारेण स्तोमेन हन्ने एकविपुंसे प्रतिष्ठायाम् प्रतिष्ठति एकविवंशात् प्रतिष्ठाय तूनन्वारोहते रवो वै पृष्ठानि रवः संवत्सरः ऋष्वेव संवत्सरे प्रतिष्ठाय एवताभ्यारोहति षक्वरयः पृष्ठम् भवन्त्यन्यदन्यच्छन्तः अन्येऽन्येव एते वृषवा लभ्यन्ते पुनेव ग्राम्याः उदेव अन्याः अह रूपेण समर्थयति अतो अन्नदेवेन वयः क्रियते तदाहो अपदवोपायने यदजा वयश्चरण्याश्च एैरवे पशवः यद्गव्यायिने गव्यान्पशूनुत्तमेऽहन्नालभते तेनैवोभयान्पशूनवरुन्धे राजा प्रत्याभवन्ति अनभिजिनस्याभिजित्यै नौरेयम् नव श्वेतापशानो बन्ध्या भवन्ति अन्तत एव ब्रह्मवर्कसमवन्धे सोवायस्पराज्ञेनोपाहापुनविनः पशूनानभदे अहोरहात्रानामभियत्य पशुसर्वारेण व्यर्थे योश्वमेधेनैतरे सकलम् पशुभिरेवात्मानकम् समर्थयति ऋतुभिर्वारेण व्यर्थते योःश्वमेधेनैजे विशङ्गात्रयोन्दायितृपशोनालपदे ऋतुभिरेवात्मानकम् समर्थयति आवारेण पशुभ्यो वृष्ठदे यो अश्वमेधेन एकते पर्यज्ञकतावृत्सजन्त्यस्कारा प्रजापरकामयमहानन्नादस्यामिदे स एतावश्वमेधेव हिमानामपश्यत् तावगृह्णेत स्वकामय महानम् नादोभवदे यः कामनेत महानन्नादस्यामिति स एतावश्य मेधेवहिमानौ गृह्णेत महानेवान्नादो भवते यजमानदेवत्या वैभवा यद्भवाम् मयम् न भेदः पर्यजति यजमानमेव राज्येन भेदः परिगृह्णादि पुरस्ताः साहकारा वा अन्ये देवाः उपरिष्टात्साहकारा अन्ये देवा एनेष्वेव मेध्यभयेव लभ्यन्ते यदि भवाम् मयिम् न भयदः पर्यजति तानेवो भयान्द्रीणादि ऐश्वदेवो वा श्वः नय्यत्राजापत्यम् कुर्यात् दे। या एव देव विभागाः ताभागेजेनप्यर्थयेत् देवतार्भ्यसमदन्दध्याद ता दे दे दे। दे। सेनान्तग्रष्टाभ्याम् मण्डूकाञ्जम्ब्यभिरि दे। आज्यमपदानम् कर्ता परिसङ्ख्याय बाहुदेर्जहोरे दे। या एव देवताविभागाः ताभागेलेन समर्थयते दे दे न देवदाभ्यस्तवाकाञ्जहात्यनन्दरित्ये प्रयादाय स्वाहेति पञ्चदशम् पञ्चदशर्धमादश्चरात्रयः अर्धमादरः संवत्सराः संयर्ताः सन् हे पुरोष्टकृतः अस्मदसमेऽद्यमयमुद्धारमुद्धरामहे अचैतानभिमे हे लोहितमुदहरन्त ततो देवाभवन् परापुराः यत्सप्तोहितम् जुहोदभ्रादुर्व्या विभोत्यै भवत्यात्मनाः पराश्चभ्रादुर्व्या भवति गोमरकण्ठेन प्रथमाहुलिम् जुहोदे अथमेको मृगः रुद्रो अग्निस्मिकट रुद्रादेव पशोनन्तर्दधाति अथो यत्रैटाव रत्र रुद्रः पशोनभिमन्यते अश्वतपेन द्वितीयामाहुदिञ्जुहोदे पशवोशपम् ऋद्रोहाग्निस्मिटकृते रुद्रादेव पशोनन्तर्दधादे अतो यत्र एक एकाहुत हो रत्र रुद्रः पशोनभिमन्यतेन कमण्डरुणा तदीयाः आहुतिञ्जुहोद्यायास्यो वे प्रजाः रुद्रोः प्रकृते रुद्रादेव प्रजा अन्तर्दधादे अथो रक्तैषा हृदर्हूयते अत्र रुद्रः प्रजा अभिमन्यते अश्वस्य वा आनन्दस्य मेधमुदर्ता हरस्वस्तोमीयम् भवति हिरस्वस्तोमीयम् जुहोदि स्वमेधमेपे न मालभवे आर्जेन जुहोदि मेधो वा अश्वस्तोमीयम् मेधेनैवास्मिन्मेषम् दधाति क्षत्रिकं शरम् जहोदे क्षत्रिकंसदक्षराहते बारहताः पशवः मात्रा पशोनेवमात्रयासमर्थे तायद्धोजेतेर्वाकनीयतेर्वाजुभुयात् पशोन्मात्राम्यर्थयेत् क्षत्रिकंशरञ्जहोदे क्षत्रियम्सदक्षरा वृहते बाहिहतः पशवः सा पशूनाम् मात्रा पशूरेव मात्रजानुवर्धयते अश्वस्थोमीनकम् हत्वाद्युपदायदे पुरुषोऽप्रतिष्ठः पदेन प्रतिष्ठजानुवर्धयते पदाोः अश्वस्तोमीयम् पूर्वकम् भोरव्या निपदा इति अश्व वाश्वस्तोमीयम् पुरुषाद्विपदाः अश्वस्त्वमीरगम् हुत्वा द्विपदा जहोदे अस्माद्विपाच्च विष्पादमत्ते असोहद्विपद्देव प्रतिष्ठापेदे विपदा हुत्वा नान्यामुत्तरामाहुलञ्जुभुयाजन्यामुत्तरामाहुलञ्जुभुयात् प्रतिष्ठायाश्च वेद द्विपदा अन्ततो जुहोदिप्रतिष्ठिते प्रजापतिरश्वमेधमसज्जता ष्टोपाक्रामदेच्छल अय्यज्ञङ्कतभिन्नान्वविन्द्रिभिरन्वयेच्छल तविष्टिभिरन्दविन्ददे त्वाम् यत्संवत्सर व्यक्तिभिर्विजदे अश्वमेव निरन्विच्छदे सा वित्त भवन्ति यम् वेदपिदा यो वा स्यान्नश्य नियदे अस्यां तस्याम् वावनम् विन्दन्ते नष्ट भवन्ति यत्सा यन्सते यत् अश्वश्रेत्ते चित्ते यत् प्रादरित्यभि अश्वमेव जलन्विच्छति यत्सायम् धनेभ्योदे अश्वस्यैव यत्ते सत्यये तस्मात् सायम् प्रजाः क्षेम्या भवन्ति यत्पादरट्टभर्यजले अश्वमेव धनम् विक्षते तस्मात् दिवानक्षैदलेन यत्पादरट्टभयदले सायन्धरे होयात्राभ्यामेवेणमिच्छति अतो अहोरात्राभ्यामेव योगक्षेमम् अपवादेतस्माच्छ्रेणात्मङ्ग्रामते ब्राह्मणो वीणागाचिनो गायतः श्रिया वा एतद्रूपम् यद्वीणाः श्रियमेवास्मिन् तद्धत्तः यदा कर्मे पुरुणश्रियमश्चिते वीणात्मैवाद्यते तदा यद्भवो ब्राह्मणो गायेत गुं सुखास्माच्छे स्यात् नवे ब्राह्मणे श्रीरमतरिते ब्राह्मणान्यो गायत् राजन्यो मन्यः ब्रह्मवे ब्राह्मणः क्षत्रगुम् राजन्यः तथाः स ब्रह्मणा च क्षत्रेण जयदश्रे परिगृहेता भवने तदाहो या गायताङ्ग्रामे अवे ब्राह्मणे राष्ट्रकुम्बये यदा कलवे राजा गावयदे अथ ब्राह्मणञ्जनादेवाः ब्राह्मणो गायेत् अष्टकम्बराजः ब्रह्मणवे रूपमहः क्षत्रस्य रात्रिः तथा च क्षत्रेण चो भयदो राष्ट्रम् परिग्रेदम् भवदे इत्यन सावित्येण ब्राह्मणो गायेत् निष्ठापोक्तम् वै ब्राह्मणस्य निष्ठाभोर्तेनैवेन कुम् च समर्थयते इत्यनयावित्रेध्य साविध्यमगुम् तम् ग्राममहन्निराज्यः युद्धम् वैदान्यस्य युद्धेनैवेन कुण्ठ समर्थयते अदत्ता नेतस्यर्त परित्याह स्वमेधेनै निःस्राहण्यकारस्राहण्यः तत्सम्पद्यन्ते षड्वाऋतमः ततो नैवास्नेकल्पयतः ताभ्याम् सद्ग्रस्थायाम् अनोयुक्ते शतेन ददादि शतायुपुरुणश्रतेन्द्रियः आयुष्वेवेन्द्रिये प्रतिष्ठते सर्वेण वायुलोकेन मृत्युभोन्पायत्ताः तेभ्यो यदा लोके ते लोकेन लोके मृत्युरविन्देन मत्यवे स्वाहावे स्वाहेतविमोदबाहुदे जुहोदे लोकाल्लोकादेव नृत्युमवेददे नैनम् लोके लोके मृत्युर्विन्दने यदमुष्मये स्वाहामुष्मये स्वाहेतित्रम् कुर्वेद मत्यवे स्वाहेत्येकस्मादेवैकाञ्जुयात् एको वाुष्मन् लोके मृत्युः मृत्युेव ष्मिल्लोके वेदने भ्रूणहत्यादे स्वाहेत्रिमद आहुदिम् जहोदे भ्रूणहत्यामेव वेदने तदा यद्भ्रूणहत्या वात्या कस्मा यज्ञे विक्रियते अमत्यर्वा भ्रूणहत्याया इत्याह भ्रूणहत्या वार्त्यते यद्भ्रूणहत्याये स्वाहेत्र मदला आहुदिम् जहोदे मृत्युमेवाहुत्या दत्मयित्वा परिमाणम् गत्वा भ्रूणभ्यम् करोति एतागम् भवेमण्दः भ्रूणहत्यादे प्रायश्चित्यम् विदाकार यो हास्यापि प्रजायाम् राम्भम् वन्ते सर्वस्मै तस्मै करोति दे। जम्बगाय स्वाहेत्यमाहुलम् जहोदे वरुणमवेजम् बगः अन्तत षस्य दुःखस्य व्यङ्काक्षस्य मूर्धम् जुहोदे एलद्वयवरुणस्य रूपम् रूपेणैव वरुणमवेदिदे वारुणो वाश्वः तम् देवतजागमनयदे करोदे न वो राज्ञे न वरुणादेत्याह वारणो नमो राजापत्यो वा श्वः स्वदेवेन देवदयासमर्थे नमोऽपतेत्याह धर्मोपाधिपतिः न समेव वरुन्धे अधिपतिरस्पृथिपतिम्भतिरहम्बुराहम् भोजानिमित्याह अधिपतिमेवेन कुंसमानानाहम् करोदे मान्धेहेत्याह आदिनमेवेतामासास्ते उपाकृताय स्वाहेत्युपाकृते जुहोदे आरब्धाय स्वाहेति नियुक्ते जहोदे उदायष्मा हेजुहृदे जहोदे येषाम् लोकानामभिजत्यै प्रधारेण्यश्च पदे आत्मेन मेमाश्विनम् तान् पशूनादहृदे प्रतिष्ठत्यै यदात्मो भवते अग्निः सर्वा देवता एवावरुन्धे ब्रह्म वा अग्ने क्षत्रमिन्द्रः विरेन्द्राज्ञा भवते ब्रह्मक्षत्रे एवावृन्धे विदाश्विना भवते आशिनामवृद्धे न भवन्ते लोकाः एष्वेव लोके शुभे तिष्ठते अग्नियमु प्रागपालय निर्वपदेक्षराविरा ्या भवन्ति सर्वत्वाय अयज्ञेन आत्मेन अष्टागपालन्य सौम्यञ्जलम् सावित्तमष्टागपालम् यदा भवति अग्निः सर्वा देवताः देवताभिदेवैनम् यत्सञ्ज्ञा भवते सोमोहामोटे नागुम्बाजाः ध्याम् विन्दते साभिरेवणम् भिणते यत्सामित्रा भवते स्वमितप्रदोदेवेणम् भिणते एताभिरेवेण देवताभिर्भिणज्यते अनदो हैर्भवने पोष्णम् निरम् निर्भवेन् श्रवणस्यान् पोषामश्रावण्यस्य भिणग स देवेणम् भिलज्यते अश्लो न है भवदे नोद्रञ्चनम् निम् गते यदि महती देवताभि एतद्देवत्यो वा अश्वः स्वदेवेण देवतयाभिरञ्जने अगतो हैमभवदे वै स्मारन्समानम् निम् गतेन्द्रेण निनागच्छेत् यम् वाज्ञाः इयमेव मत्स्याहम् परिलोधमानयते आहैमनुद्यमर्गच्छते यज्ञधेया अग्निरेकम् भोमदेकपालः शौर्यम् पयः वायव्यभागः विजमानो वाश्वः अगम्हदावारेण गृहेदः यस्याश्वमेधाक्षितो यदगम् भोमते निर्वमते अगम्हदनेपदेन मुच्यते विजमानो वाश्वः एतदावारेण व्यर्थते यस्या स्वामेधायप्रोक्षितोभ्येदे सौर्यम् यत्सौर्यम् वजो भवते पैरदेवेन कम्सनवर्धयते यदमानो वा स्मः गर्भैर्वारे यस्या स्वामेधोक्षितोभ्ये वायव्या गर्भायाः ेषास्त्वमेधे प्रायक्षित्य क्रियते इष्वापदे द्वादश ब्रह्मोदरान् सङ्ग्रस्थिते सर्वमेन द्वादश सर्वे यदिष्ट उपनामकरेण यज्ञस्याविष्वस्यात्माविमारेण स्वच्छन्दागन्धे ये जानः तानि करेणावदानुपणप्रयुञ्जेते सर्वापि सग्निष्ठिते यज्ञेवागात्म्यते सादगाम् क्रोधे कृते वै भवत्यनुष्ठुता सानुपुनः प्रयुज्येत्यावह द्वादैव ब्रह्मोदनान् सग्निष्ठिते निर्ववेल प्रजापतिर्विवादनः यज्ञप्रजापतिः उपनामकरेण यज्ञा भवते न वाीजान् भवते द्वादश भवन्ति द्वादशमाधाः संवत्सरः संवत्सर एव परितिष्ठते एष वै विभोर्नाम यज्ञः सर्वगम् हवीनत्र विभुभवने यत्रैतेन यज्ञेन यजन्ते एष वै प्रभोर्नाम यज्ञः सर्वगम् हवीनत्र प्रभवते यत्रैतेन यज्ञेन यजन्ते एषभावोद्यस्मान्नाम यज्ञः सर्वगम् हवैनत्रोद्यस्मद्भवते यत्रैतेन यज्ञेन एजन्ते एषवे वयस्वान्नाम यज्ञः सर्वगम् हवैरत्र वयस्पद्भवति यत्रैतेन यज्ञेन यजन्ते एषवे विसृतो नाम यज्ञः सर्वगम् हवेरत्र विसृतम् भवते यत्रैतेन यज्ञेन यजन्ते एषवे व्यावृत्तो नाम यज्ञः सर्वगम् हवैरत्र भवते यत्रैतेन यज्ञेन यजन्ते एतवै प्रदक्षितो नाम यज्ञः सर्वगम् हवेदत्र प्रदक्षितम् भवते यत्रैतेन यज्ञेनेजन्ते एतवैतेजस्मै नाम यज्ञः सर्वगम् हवेदत्र तेजस्वि भवते यत्रैतेन यज्ञेन येजन्ते एदवै ब्रह्मवर्त्यसे नाम यज्ञः आहवेतत्र ब्राह्मणा ब्रह्मवर्तसे यत्रैतेन निज्ञेन येजन्ते एतवादिव्याधे नाम यज्ञः आहवेदत्र राजज्ञादिव्याधे जायते यत्रैतेन यज्ञेन येजन्ते एतवैरे नाम यज्ञः वेर्थायितो हवैदत्र मनुष्या भवन्ति यत्रैतेन यज्ञेन यजन्ते एतमैकृप्लो नाम यज्ञः कल्पते हवैदत्र प्रजामो योगक्षेमः यत्रैतेन यज्ञेन यजन्ते ज्ञपयन्ति यज्ञावेदाव्यम् यज्ञेनैवेन सापतिष्ठते यो लोकमेवेन गमयते तात्मेन कृत्यधिकंसम् ज्ञपयन्ते एतद् रूपम् रूपेणैव पशूनपर्ध्ये हिरण्यकशिप भवते तेन सपर्ध्ये रुग्मा भवते स्वर्गस्य लोकस्यालिख्यात्ये अश्वो भवते प्रजापदेनाद्येः अस्य वे लोकस्य रोपम् तार्प्यम् अन्धरिक्षस्य कृत्यसे वादः विभोभिरण्यकशिपो आयत्यस्तग्मः प्रजापदेरश्वः इममेव लोकम् तार्पेणाप्नोति आदित्यकम् रुक्मेण अश्वेनैव मेऽध्येन प्रदापदे स्वावित्यगम् तु लोकतामाप्नोति एतादेव देवताम् दादिव्यम् साकम् समान् लोकतामाप्नोति योश्वमेधेन विजते योजयनमेवम् वेद आदित्याश्चाङ्गिरश्च वर्गे लोके स्पर्धन्तेभ्यः अमुनायश्वयदम् भोजम् दक्षिणामनयन् ब्रुवन् स्ववर्योजने तस्माश्वेत्यार्पयन्ते तस्मा यज्ञेवरोदीरे यत्प्रजापदिदालब्धोऽश्व भवद् तस्मादश्व नाम यक्ष्व यदर्वादे तस्मादर्वा नाम यत्सद्योगादान् समु तस्माद्वाजी नाम यदधुराणाम् लोकाना दत्ता तस्मादा नित्यो नाम प्रज्ञर्वा स्वमेधस्य योगिरायदनम् सो योगे योजिरायतनम् यदस्वमेधेत्य उत्तरवेदो भवति योजिमन्तमेवैरमायधनमन्तम् करोति योजिमानायतनमानम् भवति यदेवम् वेद प्राणापानौ वा नेदौ देवानाम् इतर्काश्वमेधौ प्राणापाणामेवावरुन्धे ओजौवलम् वा नेदौ देवानाः वितर्काश्वमेधौ ओजौवलमेवावृन्धे अग्निर्वाश्वमेधस्य ज्योतिदायतनम् सोऽग्नेर्योलिरायतनम् अयश्वमेधेग्नौ नित्य उत्तरवेदिम् जिनोति पावकाश्वमेधौ अर्कास्वमेधावेवावन्धे अथो अर्कास्वमेधयो हेम प्रतिष्ठते प्रजापयम् वे देवादलम् मेधायालसन्त एकम् वा एतद्देवानावः यत्संवत्सरः पुरस्परात्संवत्सरा लभ्यते यत्प्रजापजरा स्वाभवत् तस्मादश्वः यत्सज्ञो मेषा भवत् तस्मादश्वमेषः येजगोश्वमानम् तस भवति यदेवम् वेद यद्वै प्रजापजना लब्धाश्व भवत् तस्माश्वप्रजापदे प्रजोदामनोपदमः आस्कल्पप्रतिरोपो जायते यदेवम् वेद सर्वाणि भोगानि सम्पर्का लभते समेनम् देवास्तेजसे ब्रह्मगानि भरन्ति यो स्वमेधेन गजते योगेन वेमम् वेद एतद्वैतद्देवानेतान् देवताम्भोदम् मेधायालभन्त यज्ञमेव यज्ञेन यज्ञमैजन्त देवाः कामप्रञ्जमकुर्वता प्रेमसत्वमकामयन्त प्रेमसत्त्वमगच्छन् यो स्वमेधेन गजते देवानामेवायनेन इति तायामत्रेणैव यज्ञेनैतदेशामप्रेण अपुनर्माणमेव गच्छति एतस्तविरूपेण पुरस्तात्तायान्तौ परम् बहु अपमानभवे सर्वेभ्यः कामेभ्यः सर्वस्यात्यै सर्वस्य नित्यै सर्वमेव देनाग्नोति सर्वम् जयते योश्वमेधेन एतदेव योजेनमेवम् वेद यो वा अश्वस्य वेद्यस्य रामणे वे अश्वस्यैव्यस्त रामं रामञ्जुहोदे अहोरात्रे वास्य वेद्यस्य नामणे यत्सायम् प्रारज होदे अश्वस्यैव वेद्यस्त पुरा अश्वस्य वेद्यस्त नामं यो वा अश्वस्य मेभ्यश्च पदेवेन अश्वस्यैव मेभ्यश्च पदेवदेन जुहोदे तर्हि यो वा अश्वश्च वेध्यश्च विवर्तनम् वेद अश्वश्चैव वेध्यस्य विवर्तने विवर्तने जुहोदे असौ वा नित्योश्वः स आहवणीयमागच्छति तद्विवर्तते यदग्निहोवर्त्रम् जुहोदे अश्वस्यैव वेध्यस्य विवर्तन विवर्तने जुहोरे एतदनुगतिः स्मै पुनः अश्वश्यमेभ्यश्च विवर्तने विवर्तने जुह्वी हरिः ओ तृतीयाष्टकः समाप्तः